अत तृतीयाष्टः पञ्चमः प्रश्नप्रारम्भः ओ सत्यम् प्रपद्ये ऋतम् प्रपद्ये अमृतम् प्रपद्ये प्रजापतेः प्रजान्तनुभमनार्ताम् प्रपद्ये इदमहम् पञ्चदशे नवज्रेण विषन्तम् भ्रातृजमवक्रामामि योऽस्मान्वेष्टि यञ्च वयम् विष्मः भोर्भुवस्सुवः हेम् प्रमो वाच अभिद्यवः हविष्मन्तो घृताच्या देवाञ्जिगातिसुनयोः अग्न आयाहि वीतये गृणानो हव्यतातये निहोता सत्सि बर्हिषे तन्द्वासमिद्भिरङ्गिरः घृतेन वर्धयामसे बृहच्छोचायविष्ठ्या सदः पृथुःस्रवाय्यम् अर्च्छादेव विवाससि बृहदग्ने सुवीर्यम् ईडेऽन्यो नमस्य स्थिरः तमागुंसि दर्शतः समग्निरिध्यते वृषाः वृषो अग्निः समिध्यते अश्वो न देववाहनः तगुम्हविष्मन्त ईडते वृषणन्त्वा वयम् वृषन् वृषाणः व्रशान समि अग्ने देव्यरम् धरे अग्निम् दूतम् वृणीमहे होतारम् विश्ववेदसम् अस्य यज्ञस्य सुक्रतुम् समिज्यमानो रध्वरे अग्निः पावकयेव्यः शोचिष्केशस्तमीमहे समिद्धो अग्न आहुत देवानियक्षिस्वध्वर त्वगुम् हिहव्यवालसि आजुहो तदुपस्यत अग्निम् वृणेध्वगुम्हव्यवाहनम् त्वम् वरुण उत अग्ने त्वाम् वर्धन्ति पतिभिर्वसिष्ठाः त्वेव सुषणनानि सन्तो यूयम् पातस्वस्तिभिः सदानः अग्ने महागुम् असि ब्राह्मणभारत असावसौ देवेऽद्धो मन्विद्धः ऋषिष्ठुतो विप्रानुमदितः कविशस्तो ब्रह्मसगुंसितो घृताहवनः प्रणेर्यज्ञानाम् रथेरद्धराणाम् अतोर्तो होता तोर्निर्हव्यवाट् आस्पात्रम् जुहोर्देवानाम् चमसो देवपानः अरागुम् इवाग्नेमिर्देवागुस्त्वम् परिभोरसि यजमानाय अग्निमग्न सोममावह अग्निमावः प्रजापतिमावः अग्निशोमावावः इन्द्राग्नी आवः इन्द्रमावह महेन्द्रमावह देवागुम् आद्यवागुम् आवह अग्निगुम्होत्रायावः स्वम् महिमानमावः आचारग्ने देवानवः स््यजा च जातवेदः होत्रम् वेत्तुप्राभित्रम् स्तो भजम् साधुते यजमान देवता भृगवते मध्वर्योऽश्रुचमास्य स्म देवायुवम् विश्ववाराम् ईडामही देवागुम् ईडेन्द्यान् नमस्याम नमस्यान्जाम यज्ञजान् समिधो अग्न आज्यस्य तनोनपादग्न आज्यस्य वेत् लिडो अग्न आज्यस्य वियम् बर्हिरग्न आज्यस्य वेत् स्वाहाग्निम् स्वाहा सोमम् स्वाहाग्निम् स्वाहा प्रजापतिम् स्वाहाग्निसोमौ स्वाहेन्द्राग्नि स्वाहेन्द्रम् स्वाहा महेन्द्रम् स्वाहा देवागुम् आज्यपान् स्वाहाग्निगुम्होत्राजुषाणाः अग्न आज्यस्य विजन्तो अग्निर्वृत्राणि जङ्घनत् द्रविडस्युर्व्युपन्ययाः समिद्धः शुक्र आहुतः जुषाणो अग्निराज्यस्य वेदो त्वगुम् सोमासि सत्पतिः त्वगुम् राजोतवृत्रः त्वम् भद्रो असि जुषाणः सोम आज्यस्य हविषो वेत् अग्निः प्रत्नेन जन्मना शुम्भानस्तनुभर्गस्वाम् कविर्विप्रेण वा वृधे जुषाणो अग्निराज्यस्य वेत् सोमगेर्भिष्ट्वा वयम् वर्धयामो वचोविदः सुमृणेको न आविश जुषाणः सोम पतिः पृथिव्या अयम् आगुम् रेतागुंसि जिम्बति भुवो यज्ञस्य रजसश्च नेता यत्रा निजुद्भ्यः सचसे शिवाभिः विमोऽर्धानन्दधिषे सुवर्षाम् जिह्वामग्ने चकृषे हव्यवाहम् प्रजापतेन त्वदेतान्यन्यः विश्वाजातानि परितापभूव यत्कामास्तेजुहुमस्तन्नो अस्तु वयज्गस्यामवदयोरगीणाम् सवेदपुत्रः पितररुम् समातरम् ससोऽनुर्भुवत् स भुवत् पुनर्मघः सद्यामोऽर्नोदन्तरिक्षगुम् ससुवः स विश्वाभुवो अभवत् स आभवत् अग्नेशोमासवेदसा स हूतीव युवमेतानि दिविरोचनानि अग्निश्च सोमसक्रतो अधत्तम् युवगुम् सिन्धोगुम् रभिशस्तेरभद्यात् अग्ने सोमापमुञ्च तङ्गृभीतान् इन्द्राग्नेरोचना दिवः परिवाचेषु भूषधः तद्वाञ्च दिप्रवीर्यम् स््यथवृत्रमुत इन्द्रायो अग्नेसहुरे सपर्याद् विरज्यन्तापसव्यस्य भूरेः सहस्तमा सहसा वा जयन्ताः एन्द्रसा नसिगम् रजम् स जित्वा नखुम् सदासहम् वरिषिष्ठमोतये भर प्रससाहिषे पुरोहोतशत्रो ज्येष्ठस्ते शुष्म इह रातिरस्तु इन्द्राभरदक्षिणे नावसूनि पतिः सिन्धो नामसि देवतीनाम् महागुम् ओजसा अर्जुन्यो वृष्टिमागुम् जिव वावृधे महागुम् इन्द्रो द्रुपदाचर्षणिप्राः उदद्विवर्हा अमिनः सहोऽभिः अस्मद्रिजग्वावृधे वीर्याय उरःपृथः निर्द्वाग्मतपते गेह ये दिद्याजस्तेरग्नेगुंहोत्रेना मैंष्ठ अनेग्स्कृत अजाडर प्रिजाधा अजा सोमस् प्रजाधा अजाडग्नेजाधा अयाट् प्रजापते प्रजाधा अजाडग्नेशोमयोः प्रजाधामानि अजाडिन्द्राग्न्योः प्रजाधामानि अजाडिन्द्रस्य प्रिजाधामानि अजाण्महेन्द्रस्य प्रिजाधामानि कृणोद्वसो अध्वरा जातवेदाः जुषतागम् हविः विशो अध्वरस्य होतः पापकशोचेदेष्वगुम् हि यज्वाः कृतायजासमहिनाविजद्भोः हव्यावहयविष्ठयाते अद्य उपहोदगुम् रथन्तरगुम् सह पृथिव्या उपमा रथन्तरगम् सह पृथिव्याह्वयताम् उपहोतम् वामधेव्यगम् सहान्तरिक्षेण उपमा वामधेव्यगम् सहान्तरिक्षेण आह्वयताम् उपहोतम् बृहत् सह दिवा उपमा बृहत्सह दिवाह्वयताम् उपहोताः सप्तहोत्रा आह उपमा सप्तहोत्रा आह्वयन्ताम् उपहोता उपहोतो भक्षः सखा उपमा भक्षः सखा आह्वयताम् उपहूता हो इडोपहूता उपहोतेडा उप अस्माकम् इडा मैत्रावरुणे ब्रह्मदेवकृतमुपहूतम् दैव्या अध्वर्यव उपहोताः उपहोता मनुष्याः य इमम् यज्ञममान् ये यज्ञपतिम् वर्धान् उपहोते व्या वा देवी देवपुत्रे उपहोतो यम् यजमानः उत्तरस्याम् भोजसिहविष्करण उपहूतः दिव्ये धामन्नुपहूतः इदम् मे देवाः विर्जुषन्तामिति तस्मिन्नुपहूतः विश्वमस्य प्रियमुपहूतम् विश्वस्य प्रियस्योपहूतस्योपहूतः देवम् बरिहिः वसुवने वसुधेजस्य वेतो देवो न राशगुंसः वसुवने वसुधेजस्य वेतो देवो अग्निस्पृष्टकृत् सद्रविणा मन्द्रः कविः सत्यमन्मागजीहोता होतुर्होतुरागजीयान् आग आग्नेयान् देवानयाट् यागम् अपि प्रेः ये ते होत्रे अमत्सत पागुम् सनुषेगुम् होत्रान् देवङ्गमाम् दिवि देवेषु यज्ञमेरयेमम् सृष्टकृच्चाग्ने होता भूः वसुवने वसुधेयस्य नमो वाके वीः निरन्द्या वा पृथिवी भद्रमभूत् उत नमो वाकम् वृद्ध्या स्मसोक्तोच्यमग्ने त्वपुंसोक्तवाकसि उपश्रितो दिवः पृथिव्योः ओमन्वती तेऽस्मिन् यज्ञे यजमानद्या वा पृथिवीस्ताम् सङ्गये अत्र स्मू अप्रवेदे गृगव्यूती अभयम् कृतो वृष्टिद्यावारेत्या वा सम्भुवौ मजोभुवौ ओर्जस्वती चपजस्वती च सोपचरणा च स्वधिचरणा च तयोराविधि अग्निरिदगम् हविरजुषत अविवृधतमहोऽध्यायो अग्निविदगुम् हविरजुषत अविवृधतमहो ज्यायो कृत प्रजापतिरिदगुम् हविरजुषत अविवृधतमहोज्यायो कृत अग्निशोमाविदगुम् हविरजुषेताम् अविवृधेताम् महोज्यायोऽक्राताम् इन्द्राग्नी अविवृधतमहोध्यायोकृत महेन्द्र इदगम् हविरजुषत अविवृधतमहोध्यायोकृत देवाद्यपा आद्यमजुषन्त अज्या अविवृधन्तमहोध्यायोऽक्रण अग्निर्होत्रेणेदगुम् हविरजुषत अविवृधतमहोध्यायोकृत अस्यामृधद्धोत्रायाम् देवङ्गमायाम् आशास्ते यं यजमानोऽसौ आयुराशास्ते सुप्रजास्त्वमाशास्ते स जातपनस्यामाशास्ते उत्तरान्देव जमाशास्ते भूयो हविष्करणमाशास्ते दिव्यन्धामाशास्ते विष्णम् प्रियमाशास्ते यदनेन हविषाशास्ते तदस्यात्तदृद्ध्यात् तदस्मै देवारासन्ताम् तदग्निर्देवो देवेभ्यो वनदे वयमग्नेर्मानुषाः इष्टम् च पीतम् च उभे च नोद्यावादृह्ययी अगुम्हसस्पाताम् नमो देवेभ्यः तच्छञ्जोरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातुभेषजम् शन्ना अस्तुभ्युपदे शम् चतुष्पदे आप्यायस्वसन्ते इहत्वष्टारमघ्रियन्त नस्तु रीपम् देवानाम् पत्नीरुषतीरवन्तु नः प्रावन्तु नस्तु याः पार्थिवासो या परामभि नो देवे स्ववा श्रयच्छत उतज्ञा विजन्तु देवपत्नेः इन्द्राण्यग्नाय्यश्मीराट् आरोदसी वरुणानि शृणोतु विजन्तु देवेर्य ऋतुर्जनीनाम् अग्निर्होता गृहपतिः देवानामृतयोमर्त्यानाम् यजिष्ठः स प्रयजता मृता वा वयमुत्वा गृहपते जनानाम् अग्ने अकर्म समिधा बृहन्तम् अस्थोरिणोगार्हपत्यानि सन्तो कीग्मेन उपहोतम् वाम देव्यगुम् सहान्तरिक्षेण उपमा वामदेव्यगुम् सहान्तरिक्षेण ह्वजताम् उपहोतम् बृहत् सह दिवा उपमा बृहत् सह दिवाह्वयताम् उपहोताः सप्तहोत्राः उपमा सप्तहोत्राह्वयन्ताम् उपहोता उपहोतो भक्षः सखा उपमा भक्षः सखा आह्वयताम् उपहूता इडोपहूता उपहोतेडा उप अस्माकम् इडा आह्वयताम् इडोपहूता उपहूतेडा मानवीघतपदी मैत्रावरुणी ब्रह्मदेवकृतमुपहूतम् दैव्या अध्वर्यमगुपहूताः उपहूता मनुष्याः यजिमञ्जमवान् ये यज्ञपत्नीम् वर्धान् उपहोते द्या वा पृथिवी देवी देवपुत्रे उपहूते यम् यजमाना इन्द्राणी वा विधवा अदितिरिवसुपुत्रा उत्तरस्याङ्गेव यज्यायामुपहूता भोजि हविष्करण उपहूता दिव्ये धामन्नुपहूता विलम् मे देवाहविर्जुषन्तामिति तस्मिन्नुपभूता विश्वमस्याः प्रियमुपहूतम् विश्वस्य प्रियस्योपहूतस्योपहूता इति तृतीयाष्टक पञ्चमः